मार्कण्डेयपुराणम् अध्यायं फिफ्टि एय्ट् क्रौस्तुकिरुवाच भगवन्कथितं सम्यग्भवता भारतं मम सरितः पर्वदादेशा ये च तत्र वसन्ति वै कूर्मस्त्वया पूर्वं भारदे भगवान् हरिः कथितस्तस्य संस्थानं श्रोतुमिच्छाम्यशेषतः कथं स संस्थितो देवकूर्मरूपी जनार्दनः शुभाशुभमनुष्याणां व्यज्यते च तथ कथं यथा मुखं यथा पादन्तस्य तद्ब्रूह्यशेषतः मार्कण्डेय उवाच प्राङ्मुखो भगवान् देवकूर्मरूपी व्यवस्थितः आक्रम्यभारदं वर्षं नवभेदमिदं द्विज नवथा संस्थितान्यस्य नक्षत्रानि समन्ततः विषयाश्च द्विजश्रेष्ठ ये सम्यक् तान्निबोधमे वेदमन्त्रा विमाण्डव्या शाल्वनीपास्तथा शकाः उज्जिहानास्तथा वत्स घोषसङ्ख्यास्तथासाः मध्ये सारस्वदा मत्स्या शूरसेनाः समाधुराः धर्मारण्या ज्योतिषिका गौरग्रीवा गुड़ाश्मकोटिपा पारियात्रा कुर्बास्तुमरा जना वैदेह का सपाचालाकेता कंकमा गजाह्वयाश्च कूर्मस्य जलमध्यनिवासिनः कृत्तिका रोहिणी सौम्या एतेषां मध्यवासिनां नक्षत्रत्रितयं विप्रशुभाशुभविपाकदं पृषध्वजोञ्चनश्चैव जम्ह्वाख्यो मानवाचलः चोत्पकर्णो व्याघ्रमुखः कर्मखः कर्वडाशनः तथा चन्द्रेश्वराश्चैव खशाश्च मगधास्तथा गिरयो मैथिला शुभ्रास्तथा वदनदन्धुराः कूर्णोत्कडो भद्रगौरस्तथोदयगिरिर्द्विज कषायामेखलामुष्टास्ताम्रलिप्तैकपादपाः वर्धमाना कोशलाश्च मुखे कूर्मस्य संस्थिताः रौद्रः पुनर्वसुः पुष्यो पादेदु दक्षिणे देश क्रौस्क वदु कलिंग वंग वंगजरा कोशला था चेदयच्चोध्वकर्णाच मसा विंध्यवासीन विदर्भा नारिकेलास् धर्मदीपस्तैली व्याघ्रग्रीवा महाग्रीवास्त्रैपुराश्मश्रुधारिणः कैष्किन्ध्या हैमकूडाश्च निषधाकटकस्थलाः दशार्णाहारिका नग्ना निषाधाक्कुलालकाः तथैव पर्णशबरास्त्वा देवै पूर्वदक्षिणे आश्लेषर्क्षं तथा पैत्र्यं फाल्गुण्यप्रथमास्तथा नक्षत्रत्रृदयं पादमाश्रितं पूर्वदक्षिणं लङ्कालाजिनश्चैव शैलिका निकटास्तथा महेन्द्रमलयाद्रौ च दुर्दूरे च वसन्ति कर वनेयेच कर्कटकनेृगुकण सर्वास्वी वेण्यावासीन अवंतोदुरा तथ्वा कणिनो ज महाराष्ट्र स कर्नाटा गोनर्दाश्चिकूटका चोला कोलगिरा क्रौचद्वीपजड़ाथरा की ऋष्यमूकस्थ निक ये जना शुक्र्यादि वैदूर्य चराश्चये शङ्खशुक्र्यादिवैदूर्यशैलप्रान्तचराश्चये तथा वारिचरकोलाश्चर्मपट्टनिवासिनः गणबाह्याः पराकृष्णाद्वीपवासनिवासिनः सूर्याद्रौ कुमुदाद्रौ च देवसन्ति तथा जनाः औखा वनास्पिशिकास्तथा ये कर्मनायकाः दक्षिणा कौरुषाय च ऋषिकास्तापसाश्रमाः ऋषभाश्रिखलाश्चैव तथा काञ्चीनिवासिनः तेलङ्गा कुञ्चारदरी कच्छवासाश्च ये जनाः ताम्रपर्णो तथा कुक्षिरिति कोर्मस्य दक्षिणः फाल्गुण्यश्चोत्तराहस्ता चित्रा चर्क्षत्रयं द्विज कूर्मस्य दक्षिणे कुक्षौ बाह्यपादस्तथा परं काम्भोजास् प्रह्लवाश्चैव तथैव बहवामुखाः तथा च सिन्धुसौवीरासानर्ता वनितामुखाः द्रावणा मार्गिका शूद्रा कर्णप्राधेयवर्वराः किराताः पारदाः पाण्ड्यास्तथा पारशभा कलाः धूर्तका हैमगिरिका सिन्धुकालकवैरथाः का सौराष्ट्राद्दरदाश्चैव द्राविडाश्च महार्णवाः ये ते जनपदाः दक्षिणे परे स्वात्यो विशाखामैत्रं च नक्षत्रत्रयमेव च मणिमेकः क्षुराद्रिश्च कञ्चनौस्तगिरिस्तथा अपरान्तिका हैहयाश्च शान्तिका विप्रशस्तकाः कौङ्कणाः पञ्चनदका वामना तार्शुराख्यकर्करामश्मीरा फुणेुमं चे जना फुलुगाखोरा गुरहा कलास्तक क्षण वाजिकेश सचूलिकाः अश्वकेशास्तथा पुच्छे जना कूर्मस्य संस्थिताः ऐन्द्रं मूलन्तधागनक्षत्रत्रयमेव च माण्डव्याश्चण्डकाराश्च अश्वकालनतास्तथा कुण्यतालड़ स्त्रीबाबिक्रास्ता नृसि वेणुमच बला वस्ता परे धर्मबद्धास्तूका गुरकर्मस्थि जना वाम जनाशे स्थिधा भागुरे आषाढाश्रवणे चैव धनिष्ठा यत्र संस्थिता कैलासो हिमवांश्चैव धनुष्मान् वसुमांस्तथा क्रौञ्चा कुरुवकाश्चैव क्षुद्रवीणाश्च ये रसालया सकैकेया भोगप्रस्तासया मुनाः अन्धर्ध्वोपास्त्रिगर्ताश्च अग्निज्याः सार्धना जनाः तथैवाश्वमुखाः प्राप्ताश्चिबिडाकेशधारिणः दाशेरका वाडधानाशवधानास्तथैव च पुष्कला धमकैरातास्तथा तक्षशिलाश्रयाः अम्बाला मालवा मद्रा वेणुकास्सवदन्धिकाः पिङ्गला मानकलहा हेमतारकाः यशोमत्याः सगान्धाराःखरसागरराशयः यौ धेया दासमेयाश्च राजन्या श्यामकास्तथा क्षेमदूर्ताश्च कूर्मस्य वामकुक्षिमुपाश्रिताः वारुणञ्चात्र तत्र पौष्टपदाद्वयम् येन किन्नरराज्यं च पुशुपालं सकीचकं काश्मीरकं तथा राष्ट्रमभिसारजनस्तथा दवदास्त्वं गणाश्चैव कुलडा वनराष्ट्रकाः शैरिष्टा ब्रह्मपुरकास्तथैव वनवाह्यकाः किरातकौशिकानन्दा जनाः पह्णवलोलनाः दार्वादामरकाश्चैव कुरडाश्चान्नदारकाः एकपादाखोषाः स्वर्गभौमानवद्यकाः तथा सयवनाहिङ्गाश्चिरप्रावरणाश्च ये त्रिनेत्राः पौरवाश्चैव गन्धर्वाश्च द्विजातमा पूर्वोत्तरन्तु कूर्मस्य पदा मेदे समाश्रिताः रेवत्यश्चाश्विदैवत्यं याम्यञ्चर्क्षमिति त्रयम् तत्र पादे पाकाय मुनिसत्तमा देशेष्वेदेषु चैतानि नक्षत्राण्यपि वैद्विच ये तत्पीडा अमीते शाः पीड्यन्ते ये क्रमोदिताः यान्ति चाभ्युदयं विप्र ग्रहैः सम्यगवस्थितैः यस्यर्क्षस्य पतिर्यो वै ग्रहस्तद्भावितो भयम् तद्देशस्य मुनिश्रेष्ठ तदुत्कर्षे शुभागमः प्रत्येकं देशसामान्यं नक्षत्रग्रहसम्भवं भयं लोकस्य भवति शोभनं वा द्विजोत्तम स्वर्क्षैरशोभनैर्जन्तोत्सामान्यमिति बीदिदम् ग्रहैर्भवति पीडोद्धमल्पाया समशोभनम् तथैव शोभनपाको दुःस्थितैश्च तथा ग्रहैः अल्पोपकाराय नृणां देशज्ञैश्चात्मनो बुधैः द्रव्ये गोष्ठेधभृत्येषु सुहृत्सुतनयेषु वा भार्यायाञ्जग्रहे दुस्ते भयं पुण्यवदां नृणाम् आत्मन्यधाल्पपुण्यानां सर्वत्रैवाधिपापिनां नैकत्रापिह्यपानां भयमस्ति कदाचन दिग्देशजनसामान्यं नृपसामान्यमात्मजं नक्षत्रग्रहसामान्यम् नरो भुङ्े परस्पराभि परस्पराभिरक्षा च ग्रहादौस्त्येन जायदे येदेभ्य एव विप्रेन्द्रशुभहानिस्तथाशुभैः यदेतत् कूर्मसंस्थानं नक्षत्रेषु मयोदितं येदत्तु दत्तु देशसामान्यमशुभं शुभमेव च तस्माद्विज्ञाय देशर्क्षं ग्रहपीडान्धात्मनः कुर्वोदशान्तिं मेधावी लोकवादांश्च सप्तम आकाशाद्देवतानां च दैत्यादीनां च दौर्हृदाः पृथ्व्यां पतन्ति ते लोके लोकवादा इति श्रुताः तां तथैव बुधकुर्यात् लोकवादान्नहापयेद तेषां तत्करणान्नृणां युक्तो दुष्टागमक्षयः शुभोदयं प्रहानिं च पापानां द्विजसत्तमप्रश्नहानिम् गुर्युस्ते द्रव्यादीनां च कुर्वते तस्माच्छान्तिपरःप्राज्ञो लोगवादरतस्तथा लोगवादांश्च शान्तिश्च ग्रहपीडासु कारयेद। अद्रोहानुपवासांश्च शस्तं चैत्यादिवन्दनम् जपं होमं तथा दानं स्त्राणं क्रोधादिवर्जनम् अद्रोहसर्वभूतेषु मैत्रीं कुर्या च पण्डितः वर्जये दशदीं वाचमधिवादां तथैव च गृहपूजाञ्च कुर्वोद सर्वपीडासु मानवः एवं साम्यन्ध्यशेषाणि कोराणि द्विजसत्तम प्रयतानां मनुष्याणां भारते भगवान् नारायणो ह्यचिन्त्यात्मा यत्र सर्वं प्रतिष्ठितं तत्र देवाः स्थितास्सर्वे प्रतिनक्षत्रसंश्रयाः तथा मध्ये हुतवः पृथ्वी सोमश्च वैद्वि च मेषादयस्त्रयो मध्ये मुखे द्वौ मिथुनादिकौ प्राग्दक्षिणे तथा पादे कर्कसींह व्यवस्थितौ सिंहकुलाश क्ष राशत्र स्थित तुलाध वृच्चिकाच पादे दक्षिणपश्चि पृष्ठ वृश्चिन सहधन्वी व्यवस्थित वाव्ये चा वै पादे धनुर्ग्राहादिकं त्रयं कुम्भमीनौ तथैवास्य उत्तरां कुक्षिमाश्रितौ मीनमेषौ द्विजश्रेष्ठ पादे पूर्वोत्तरे स्थितौ कूर्मे देशास्तदर्क्षाणि देशेष्वेदेषु वै राशयश्च तथर्क्षेषु ग्रहराशिष्वस्थिताः तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् तत्र स्त्रा प्रपूर्वो ददानहोमादिकं विधिं स एष पादो ब्रह्म मध्ये ग्रहस्य यः कारणं ख्योचित्मा कगद प्रभु यीमाकंडेयपुराणे कूर्मिवेशो नापंचाशोध्याय